अवत्ये दशकम् रासक्रीडै मून पुरत्परानन्दरसात्मकेन त्वया समासादितभोकलील असीममानान्द्रबरम् प्रपन्ना महान्तमा पूर्वदमम् बुजाक्ष्य निलीयते सोमयि मय्यमायम् रमापतिर्विश्वमनो विराम इति स्म सर्वा निरीक्ष गोविन्दतिरोहितो भो रदाभिताम् तावदजादगर्वाम् अतिप्रियाम् गोपवधूम् मुरारे भवानुपादाय गतो विदूरं तया सगस्वैरविकारि तिरोहिते तत् त्वयि जातताप समम् समेता कमला यदाक्षा वने वने त्वाम् परिमार्गयन्त्यो विषा तवा भोर्भगवन्नपारम् हा मालति बालवल्य किम् वीक्षितो नो हृदयैकचोर विद्यातितास्वत् प्रणवो विलेपो निरीक्षतोयं सखि बङ्कजाक्ष पुरो मेत्याकुलमालपन्ते त्वाम् भावना चक्षुषि वीक्ष का चेत् तापम् सखीनान् तवानुशक्रो किल चेष्टितानि विचित्य भूयोऽपि तथैव तमो वदारावति मार्गयन्त्य पुनर्विमिश्रायमुना तडान्ते वृषम् विलेपुश्च जगुर्गुणांस्ते तथा व्यथा सङ्गुलमानसानाम् व्रजङ्गनानाम् करुणैकसिन्धो जगत्त्रयी मोहन मोहनात्मा त्वम् प्रादुरासीरयि मन्दहासी त्वाम् वीक्ष्यतन् व्यक्सकसा तदानीम् किम् किम् प्रणयाति भारत्, सत्वं त्वम् गतात् पालय मारुदेश भज गोपाल भज प्यारे मुरारी नन्दलाल